अयः कणपचक्राश्मभुषुण्ड्युद्यतबाहवः कृष्णपार्थौ जिघांसन्तः क्रोधसम्मूर्च्छितौ जसः तेषामतिव्याहरतां शस्त्रवर्षं प्रमुञ्चतां प्रममाथोत्तमाङ्गानि बिभत्सुर्निशितैः शरैः कृष्णश्च सुमहातेजाश्चक्रेणारिविनाशनः दैत्यदानवसङ्घानां चकारकदनं महत् वेलामिवसमासाद्य समासाद्य व्यतिष्ठन्नमितौजसः ततः शक्नोति संक्रुद्धस्त्रिदशानां महेश्वरः पाण्डुरं गजमास्थाय तावुभौ समुपाद्रवत् वेगे सोऽसृजत् हता वेता वितिप्राः सुरानसुरसूदनः ततह समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिं जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तथा कालदण्डं यमो गदां चैव धनेश्वरः पाशांश्च तत्र वरुणो विचित्रां च तथा शनिं स्कन्दः शक्तिं समादायतस्थौ मेरुरिवाचलः ओषधीर्दीप्यमानाश्च जगृहातेष्विनावपि जगृहे च धनुर्धाता मुसलन्तु जयस्तथा पर्वतञ्चापि जग्राह क्रुद्धस्त्वष्टा महाबलः अंशस्तु शक्तिम् जग्राह मृत्युर्देवः परश्वधम् प्रगृह्यपरिघम् घोरं विचचारार्यमा अपि मित्रश्चक्षुरपर्यन्तम् चक्रमादायतस्थिवान् पूषा भगश्च संक्रुद्ध सविता च विशाम्पते आतकार्मुकनिस्त्रिंशाः कृष्णपार्थौ प्रदुद्रुवुः रुद्राश्च वसवश्चैव मरुतश्च महाबलाः विश्वे देवास्तथा साध्या दीप्यमाना स्वतेजसा एते चान्ये च चा बहवो देवास्तौ पुरुषोत्तमौ कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः तत्राद्भुतान्यदृश्यन्तनिमित्तानि महाहवे युगान्तसमरूपाणि भूतसम्मोहनानि च तथा दृष्ट्वा सुसंरब्धं शक्रं देवै सहाच्युतौ अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ आगच्छतस्ततो देवानुभौ युद्धविशारदौ व्यताडयेताम् सङ्क्रुद्धौ शरैर्वज्रोपमैस्तदा असकृत भग्न भयाद्रणं परित्यज्य परतज्यक्रम्वाशिश्रियु